नम हिरण्याय हिरण्याय च प्रपथ्याय प्रपथ्याय च प्रपथ्यायेतिप्र पथ्याय नमः शिलाय किगुं शिलाय चक्षयणाय क्षयणाय च क्षणमः नमः कपर्दिने कपर्दिने च सफुलस्तये पुलस्तये च क्षणमः नमो गोष्ठ्याय गोष्ठ्याय च गोष्ठ्यायेति गोष्ठाय च गृह्याय गृह्याय च क्षणमः नमस्तल्प्याय कल्प्याय च गेख्याय ेह्याय च नमः नमः्याय काट्याय च गह्वरेष्ठाय गह्वरेष्ठाय च गह्वरेष्ठायेति ग्वरेष्ठाय प्र नमः नमो ह्रदय्याय प्रदय्याय च निवेश्याय निवेश्याय च निवेश्यायेतिनि वेश््याय च नमः नमः पादम् सव्याय पादम् सव्याय च शरदस्याय रजस्याय च क्षणमः नमः शुष्ट्याय शुष्ट्याय च च हरित्याय हरित्याय च क्षणमः नमो लोऽप्याय गोप्याय च चोलप्याय उलप्याय च क्षणमः नभूर्याय ोऽ्याय चषोर्ण्याय सूर्ण्याय च नमः नमः पर्ण्याय पर्ण्याय च पर्णषद्याय पर्णसद्याय च पर्णसद्यायेति पर्ण सद्याय नमोऽपगुरमाणाय अपगुरमाणाय च अपगुरमाणायेत्यप गुरमाणाय चाभिघ्नते चा अभिघ्नते च चा, अभिघ्नत इत्यभिघ्नते स नमः नम आखिदते आखिदते च आक्षिदत इत्यादते स प्रक्षिदते प्रक्षिदते च प्रक्षिदत इति प्र क्षिदते स नमः नमो वः वक्किरिकेभ्यः वा किरिकेभ्यो देवानाम् देवानागुम्हृदयेभ्यः येभ्यो नमः नमो विक्षिणकेभ्यः विक्षिणकेभ्यो नमः विक्षिणकेभ्य इति क्षीणकेभ्यः नमो विचिन्वत्केभ्यः विचिन्वत्केभ्यो नमः विचिन्वत्केभ्य इति शिंवत्केभ्यः नम आनिर्हतेभ्यः आनिर्हतेभ्यो नमः आनिर्हतेभ्यैत्यानिः हतेभ्यः नम आमीवत्केभ्यः आमी आमीवत्केभ्यैत्यात्केभ्यः nama erenyaaya iranya